हरिओं श्री सीताचंद्रभ्या अथ श्रीमद्वायोध्या श्री श्रीराम राजभिषेक सामग्री संग्रह से अरोध सांवका प्रति तत्पादेशान राजेण श्रीराम से राज्यसभा आनयनम राज्ञा श्रीरामम् प्रति हितस्य उपदेश च तेषामञ्जलि बन्मानि प्रगृहीतानि सर्वचहे प्रतिगृह्य ब्रवीत् राजा तेभ्यः प्रियहितं वचहे अहोस्मि परमप्रीते प्रभावे चातिलोमव जन्मे ज्येष्ठं प्रियं पुत्रम् यौवराज समिच्छस इति प्रत्य सिदान् राजा ब्राह्मणान् निदमब्रवीत् वसिष्ठम् वामदेवं च तेषामेवोपशृण्वताम् तत्र श्रीमानयम् मास पुण्यपुष्पितकाननः यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम् राज्ञस्तु पर जनघोषो मह चनैतस्मिन् नैतस्मिन् प्रशान्ते च जनघोषे जनाधिपे वसिष्ठम् मुनिषादूरम् राजा वचनम् अब्रवीत् अभिषेकाय रामस्य यत् कर्म स परिच्छदम् तत् अद्य भगवत् तत् अद्य भगवन् सर्वम् आज्ञापयितुमर्हसि तत् श्रुत्वा भूमिपालस्य वसिष्ठो मुनिसत्तमः आदिदेशान् युक्तान् कृताञ्जलिन् सुवर्णादीनि रत्नानि बलिन् सर्वौषधीरपि शुक्लमाल्या निलायां च पृथक् च मधुसर्पिषी रहतानि च वासासि चतुरङ्गबलम् चैव गजं च शुभलक्षणम् चामरव्यजने चोभे गजम् छत्रम् च पाण्डुरम् शतम् च शातकुम्भानाम् कुम्भानाम् अग्निवर्चतम् हिरण्यशृङ्गम् ऋषिभम् समग्रम् व्याघ्रचर्म च यच्चन्यत्किञ्चिदेष्टव्यम् तत् तत् सर्वम् उपकल्प्यताम् उपस्थापयत प्रात अग्निगारे महीपते अन्तःपुरस्य द्वाराणि सर्वस्य नगरस्य चन्द्रग्भिरचताम् धूपश्च घाणहारिभिः प्रशासम् मन्दम् गुणवत् दधि क्षीरोपसेचनम् द्विजानाम् शतसहस्रम् यत्प्रकामम् अलम् भवेत् तत्कृत्य द्विजमुख्यानाम् शप्रभाते प्रदीयताम् घृतम् दधि च लाजा च दक्षिणा चापि पुष्कलः सूर्येभ्यो मात्रेषु भविता स्वस्ति वाचनम् ब्राह्मणाश्च निमन्त्र्यन्ताम् च आबध्यन्ताम् पताका च राजमार्ग च सिच्यताम् सर्वे च तालापचरः गणिकाश्च स्वलङ्कृता कक्षां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः देवतायतनश्चैत्येषु सान्नभक्ष्यः सदक्षिणः उपस्थायितव्या स्युः माल्ययोग्यः पृथक् पृथक् दीर्घासी बद्ध गोधा च सन्नद्धा मृत्यवाससः महाराजाङ्गनम् चूर प्रविशन्तु महोदयम् एवं व्यादिश्य विक्रोतु क्रिया तत्र विनिष्ठितौ चक्रतो पार्थिवाय निवेद्यच च जगत्पतिं यथोक्त वचनं प्रीतो हर्षयुक्तो द्वियोम ततः सुमन्त्रं जितिवान् राजा वचनम् अब्रवीत् रामकृतात्मा भवतः शीघ्रम् आनीयतामिति स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात् रामं तत्र रथेन रचिनाम्बरम् अथगत्तत्र सहसेन तदा तथं नृपम् प्रचोदि च प्रदीच्याश्च दाक्षिणात्याश्च भूमिप वृच्छाचार्याश्चर्ये चान्ये वनशैलान्तवासिनः उपासाञ्चक्रिरे सर्वे तं दैवासवम् यथा तेषाम् मध्ये स मरुतामिव वासवः प्रासादर्थो दशरथो दर्शायान्तमात्मजम् गन्धर्वराजप्रतिमम् लोके विख्यातपौरुषम् दीर्घबाहुहासत्वम् मत्तमातङ्गामिनम् चन्द्रकान्तान्नं रामम् अतीव प्रियदर्शनम् रूपोदार्यै गुणैः पुन्ताम् दृष्टिचित्तापहरिणम् धर्माभितप्ता पर्जन्यम् लादयन्तम् इव प्रजा न तु समायान्तम् पश्यमानो नराधिपये अवतार्य सुमन्त्रस्तु राघवं चन्दनोत्तमात् पितुः समीपं गच्छन्तम् प्राञ्जलि पृष्ठतो सातं कैलास शृङ्गाभम् प्रासादं रघुनन्दनः आरुरोह नृपं द्रष्टुं सहसा तेन राघवे स्वप्राञ्जलिरभिप्रेत्य प्रणत पितुरन्तिके नाम श्रावयन् रामो वन्दे चरणो पितुः तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलि पुटं नृपे समाकृष्ये स्वजे प्रियद्मात्मजम् तस्मै चाभ्युदयतं सम्यम् मणिकाञ्चन भूषितम् विदेशराजाचिरम् रामाय परमासनम् तथासनवरं प्राप्य विदीपयत राघवे सयैव प्रभयामेरम् उदये विमलो रविः तेन विभ्राजिता तत्र सा सभापि व्यरोचते विमलय गृह शारदी ज्यौरी वेन्दुनः तं पश्यमानो नृपति सुतोषये प्रियमात्मजम् अलङ्कृतम् इवात्मानम् आदर्श तल संस्थितं स तं सुस्थितमाभाष पुत्रं पुत्रवताम्र उवाचेदम् बचो राजा देवेन्द्रम् इव कश्यपहे ज्येष्ठायाम् असि मे पत्न्याम् सदृशाम् सदृशसुतः उत्पन्नस्तम् गुणज्येष्ठो मम रामात्मजप्रिय त्वया यत प्रजा क्षेम स्वगुणै तस्मात् तम् पुष्ययोगेन यौवराज्यम् अवाप्नुहि कामतस्तम् प्रकृत्यैव निर्णीतो गुणवानिति गुणवत्यपितु स्नेहात् पुत्रवक्ष्यामि ते हि तं भूयो विनयमर्थाय भव नित्यं जितेन्द्रियः कामक्रोधः समुत्थानि त्यजस्वव्यसनानि वर्तमानो वृत्या प्रत्यक्षया तथा अमात्य प्रभृति सर्व प्रजाश्चैवनुरञ्जय कोष्ठागारायुधागारैः कृत्वा सन्निचयान् बहून् इष्टानुरक्तः प्रकृतिः जपालयति मेदिनीम् तस्य नन्दन्ति मित्राणि लब्ध्वा मृतम् इवामरः तस्मात् पुत्र त्वमात्मानम् नियम्यैवम् समाचर रामस्य प्रियकारिणः त्वरिता शीघ्रमागत्य कौसल्यायै न्यवेदयन् सा हिरण्यं च गाशैव रत्नानि विविधानि च व्याधिदेशे प्रियाख्येभ्य कौसल्या प्रमदोत्तमा अथाभिवाद्यः राजानम् प्रथमारुह्य राघवे ययो स्वं द्युतिमत्वैस्म जनौघये प्रतिपूजितः ते चापि पौरान् पतेर्वचुत्वा तदा लाभं विवेच मनसु नरेन्द्र मामन्त्रे गृहाणि गत्वा देवान् समानचुरभि च प्रवृष्ट इत्याचि श्रीमद् रामायणे वाल्मीकि विदादिकाव्ये अयोध्याकाण्डी